अथ चतुर्थोऽध्यायः वैशम्पायनुवाच तां तु कृत्वा सभां श्रेष्ठाम् मयश्चार्जुनमब्रवीत् मय उवाच एषा सभा सव्यसाचिन् ध्वजो ह्यत्र भविष्यति भूतानां च महावीर्यो ध्वजाग्रे किङ्करो गणः तव विस्फारघोषेण मेघवन्नि न दिश्यति अयं हि सूर्यसङ्काशो ज्वलनस्य रथोत्तमः इमे च दिविजाश्वेता वीर्यवन्तो हयोत्तमाः मायामयः ध्वजो वानरलक्षणः असज्जमानो वृक्षेषु धूमकेतुरिवोच्छ्रितः बहुवर्णम् हि लक्ष्येत ध्वजम् वानरलक्षणम् ध्वजोत्कटम् यनवमं युद्धे द्रक्ष्यसि विष्ठितं इत्युक्त्वा लिङ्ग्य बीभत्सुम् विसृष्टप्रययो मयः ततः प्रवेशनम् तस्यां चक्रे राजायुधिष्ठिरः अयुतम् भोजयित्वा तु ब्राह्मणानां न राधिपः साध्येन ना पायसेनैव मधुना मिश्रितेन च कृसरेणाथ जीवन्त्या हविष्येण च सर्वशः भक्ष्यप्रकारैर्विविधैः फलैश्चापि तथा नृपा तोष्य विधराजन पेय विस्तर अहत वासो भैर्माल्यचर तर्पयामास विप्रेन्द्र नानादिता ददौ तेभ्य सहस्रणी गवां प्रत्येक शुन पुण्यासीसीद दिवस्पृदिव भारत दित्रैर्विविधैर्दिव्यैर्गन्धैरुच्चावचैरपि पूजयित्वा कुरु श्रेष्ठो दैवतानि निवेश्य च तत्र मल्लानटा झल्लाः सूता वैतालिकास्तथा उपतस्थुर्महात्मानम् धर्मपुत्रं युधिष्ठिरम् तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि सभायां ऋषयस्तस्याम् पाण्डवैः सह आसते आसान् चक्रुर्नरेन्द्राश्च नानादेश समागताः असितो देवल सत्यः सर्पिर्माली महाशिराः अर्वा वसुः सुमित्रश्च मैत्रेयः शुनको बलिः बकोदाल्भ्यस्थूलशिराः कृष्णद्वैपायनः शुकः सुमन्तुर्जैमिनिः पैलो असुहोम्य धौम्यणीमाडव्यकोशिक दो दोशस्त्रिनादो घट जानुक मौंजानो वायुभक्षाश्च सिकलिवाक सिवाक सत्यल जातुकर्णशिखावा आलम पारिजातक पर्वतश्च महाभागो मार्कण्डेयो महामुनिः पवित्रपाणिः सावर्णो भालुकिर्गालवस्तथा जङ्घाबन्धुश्चरेभ्यश्च कोपवेदस्तथा भृगुः हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः काक्षीवानौ शिजश्चैवा नाचिकेतोऽथ पैङ्ग्यो वराह शुनकः शाण्डिल्यश्च महातपाः कुक्कुरो वेणुजङ्घोऽथ कालापः कठ एव च मुनयो धर्मविद्वांसो धृतात्मानो जितेन्द्रियाः एते चान्ये च बहवो वेद वेदाङ्गपारगाः उपासते महात्मानं सभायामृषि कथयन्तः कथाः पुण्या धर्मज्ञाशु च योमलाः तथैव क्षत्रिय श्रेष्ठ श्रीमान् महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान् कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः कम्बोजराजः कम्पनश्च महाबलः सततम् कम्पयामासा यवनानेक एव यः बलपौरुषसम्पन्नान् कृतास्त्रा नमितौ यथा सुरान् काल देवो वज्रधरस्तथा